अथैकोनचत्वारिंशः सर्गः रामस्य तु वच श्रुत्वा मुनिवेषधरम् च तम् समीक्ष्य सह भार्याभिराजा विगतचेतमः नैनम् दुःखेन सन्तप्तः प्रत्यवैक्षतराघवम् न चैनमभि प्रत्यभाषतदुर्मणाः समुहोर्तमिवासम् विललापमहाबाहू राममेवानुचिन्तयन् मन्ये खलु मया पूर्वम् विवत्सा बहवः कृताः प्राणिनो हिंसिता वापि तन्मामिदमुपस्थितम् न त्वेवानागते काले देहाच्यवति जीवितम् कैकेय्या क्लिश्यमानस्य मृत्युर्मम न विद्यते योऽहम् पश्यामि पुरतः विहायवसने सूक्ष्मे तापसाच्छादमात्मजम् एकस्याः खलु कैकेय्याः कृतेयम् खिद्यते जनः स्वार्थे प्रयतमानाया संश्रित्य निकृतिम् त्विमाम् एवमुक्त्वा तु वचनम् बाष्पेण रामेति सकृदेवोक्त्वा व्याहर्तुम् न सञ्ज्ञाम् त्वप्रतिलभ्यैव मुहूर्तात् समहीपतिः नेत्राभ्यामश्रुपूर्णाभ्याम् सुमन्त्रमिदमब्रवीत् औपवाह्यम् रथम् युक्त्वा त्वमायाहि हयोत्तमैः प्रापयैनम् महाभागमितो जनपदात्परम् परम् एवम् मन्ये गुणवताम् गुणानाम् फलमुच्यते पित्रा मात्रा च यत्साधुर्वीरो निर्वास्यते वनम् राज्ञो वचनमाज्ञाय सुमन्त्रः शीघ्रविक्रमः योजयित्वाय यो, यो तत्र रथमश्वैरलङ्कृतम् तम् रथम् राजपुत्राय सूतः कनकभूषितम् आचचक्षेञ्जलिम् कृत्वा युक्तम् परमवाजिभिः राजा सत्वरमाहूय व्यापृतम् वित्तसञ्चये उवाच देशकालज्ञो निश्चितम् सर्वतः शुचिः वासांसि भूषणानि महान्ति च संख्याय सङ्ख्याय वैदेह्याः क्षिप्रमाणय नरेन्द्रेणैव मुक्तस्तु गत्वा गतः प्रायच्छत् सर्वमाहृत्य सीतायै क्षिप्रमेव तत् जाता वैदेही प्रस्थितावनम् भूषयामासगात्राणि तैर्विचित्रैर्विभूषणैः यराजयत वैदेही वेश्म तत्सु विभूषिता उद्यतोऽंशमतः कालेखम् प्रभेवमिवस्वतः ताम् भुजाभ्याम् परिष्वज्य श्वश्रोर्वचनमब्रवीत् अनाचरन्तीम् कृपणम् भर्तारन्नानुमन्यन्ते विनिपातगतम् स्त्रियः एष स्वभावो नारीणामनुभूय पुरा सुखम् पदं प्राप्त्य दुष्यन्ते प्रजहत्यपि असत्यशीला विकृता दुर्गा अहृदयाः सदा असत्यः पापसङ्कल्पाः क्षणमात्रविरागिणः न कुलम् न नापि सङ्ग्रहः स्त्रीणाम् गृह्णाति हृदयमनित्यहृदयाहिताः साध्वीनाम् तु स्थितानाम् सत्ये श्रुते स्थिते स्त्रीणाम् पवित्रम् परमम् पतिरेको निशिष्यते स त्वयानावमन्तव्यः वनम् तवदेव समस्त्वेष निर्धनः सधनोऽपि वा विज्ञायवचनम् सीता तस्या धर्मार्थसंहितम् कृत्वाञ्जलिमवाचेदम् श्वश्रूमभिमुखे स्थिता करिष्ये सर्वमेवाहमार्या यदनुशास्ति माम् यथा भर्तुर्वर्तितव्यम् श्रुतम् च मे न मामसज्जने नार्या समानयितुमर्हति नाचक्रो ना विद्यते रथः नापतिः सुखमेधेतया स्यादपि शतात्मजा मितम् ददाति हि पिता मितम् भ्रातामितम् सुतः अमितस्य हि दातारम् भर्तारङ्का न पूजयेत् साहमेवम् गता श्रेष्ठा श्रुतधर्मपरावरा आर्ये किमवमन्येयम् स्त्रिया भर्ता हि दैवतम् सीताया वचनम् श्रुत्वा कौसल्या हृदयङ्गमम् शुद्ध सत्त्वामुमोचाश्रुसहसा दुःखहर्षजम् ताम् प्राञ्जलिरभिप्रेक्ष्य मातृमध्येति सत्कृता रामः परमधर्मात्मा मातरम् वाक्यमब्रवीत् अम्बमा दुःखिता भूत्वा पश्ये त्वम् पितरम् मम क्षयोऽपि वनवासस्य क्षिप्रमेव भविष्यति सुप्तायास्ते गमिष्यन्ति नव वर्षाणि समग्रमिह सम्प्राप्तम् माम् रक्ष्यसि सुहृद्वृतम् एतावदभिनीतार्थमुक्त्वा स जननीम् वचः त्रयःशतशताघ्या हि ददर्शावेक्ष्य मातरः ताश्चापि स तथैवार्ता मातृर्दशरथात्मजः धर्मयुक्तमिदम् वाक्यम् निजगादकृताञ्जलिः तन्मे समुपजानीत सर्वाश्चामन्त्रयामिवः वचनम् राघवस्यैतद्धर्मयुक्तम् समाहितम् शुश्रुवुस्ता स्त्रियः सर्वाः शोकोपहत चेतसः यज्ञेत तासाम् सन्नादः क्रौञ्चीनामिव निःस्वनः मानवेन्द्रस्य भार्याणामेवम् वदति राघवे मुरजपणवमेघोष बशरथवेश्म विलपित परिदेवनाकुलम् यसमगतम् तदभूत् सुदुःखितम् इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे एकोनचत्वारिंशत् सर्गः